श्रीहरये नमः अथ नवमोऽध्यायः सोत उवाच इति भीतप्रजात्रोहात् सर्वधर्मविवित्सया ततो विनशनं प्राघाद्यत्र देवव्रतोपत तथा ते सर्वे सतस्वै स्वर्णभूषितैः अन्वगश्चन्द्रतै विप्रा भगवानपि विप्रर्षेरथेन स धनञ्जयः सथैर्यरोचत नृपः दृष्ट्वा निपतितं भूमौ दिवष्ट्युतमिवा प्रणेमु पाण्डवा भीष्मं सानुघासकचक्रिणा तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तमा राजर्षयश्च तत्रा सन्धृष्टुं परध भोङ्गवं पर्वतो नारदोधं यो भगवान् पाधरायणः बृहदस्त्वो भरद्वाज सशिष्य श्योरेणुकासुतः वसिष्ठयेन्द्रप्रमदस्त्रितो घृतसमधोषितः कशीवान् गौतमो त्रिश्च कौसिकोतस्सुदर्शनः अन्ये च मुनयो भ्रह्कन् ब्रह्मरातो मलः श्रीश्रेरुपेता आजग्मुखश्यभाङ्गिरसाधयः तान् समेतान् महाभागान् उपलभ्यवसुत्तमः पूजायमास धर्मज्ञो देशकालविभागवेत् कृष्णं च तत्प्रभावज्ञ आसीनं जगतीश्वरं कृद्धस्थं पूजयामास माययो पात्तविग्रहं पाण्डुपुत्रानुपासीनान् प्रश्रय अव्याचष्ठानुरागश्रय्यन्धिभूतेन चक्षुषा अहो कष्टमहो अन्यायं यद्ध्यूयं धर्मनन्दनाः जीवितुं नार्कतक्लिष्टं विप्रधर्माश्च्युदाश्रयाः संस्थिते तिरथे पाण्डौ वृथा बालप्रजावतोः युष्मत्कृते बहून् क्लेशान् प्राप्तौ का सर्वम् कालकृतम् मन्ये भवतां च सपालो यद्वय स लोको वयोरिव घनावळिः यत्र धर्मः राजा कथाबाणिर्वृगोधरः कृष्णोऽस्त्री गाण्टिवं चापं सुहृत्कृष्णस्तथो विपत् न हस्य कर्हि चित्रा जन्पुमान्वेतविधि स्थितं यत् विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि तस्मादितं दैवतन्त्रं व्यवस्य एष वै भगवान् साक्षात् आद्यो नारायणः पुमान् मोहयन् मायया लोकं गूटश्चरति वृष्णिषु अस्यानुभावं भगवान् वेदगुह्यतमं शिवः देवर्षिना रथक्साक्षात् भगवान् कपिलो नृप यं मन्यसे मातुले यं प्रियं मित्रं सुहृत्तमम् अघरोस शिवं दूतं सौहृद धतः शारथिम् सर्वात्मनः समदृशो ह्यत्वयस्यानहङ्कृतेः तथा कृतम् अतिवैषम्यं निरवध्यस्य न क्वचित् तथाप्येकान्तभक्तेषु पस्य भूपानुकम्पितं यन्मे सोऽस्त्यज्यत साक्षात्कृष्णोद्दर्शनमागतः भक्त्या वेश्यमनो यस्मिन् वाचा यन्नाम कीर्तयन् त्यजन् कळेवरं योगिमुच्यते कामकर्मभिः स देवदेवो भगवान् प्रतीक्षितां कलेवरं यावदितं हिनोम् यहं प्रसन्नहासारुणलोचलोल्लसत् मुगाम्बुजो ध्यानपतश्चतुर्भुजः सोत उवाच युधिष्ठिरस्तधा अपृच्छत् विविधान् धर्मान् ऋषीणां चानुशृण्वतान् पुरुषस्वभावविहितान् यथा वर्णं यथाश्रमं वैराग्यराघोपाधिभ्यामाम्नाथोभयलक्षणान् दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागसहान् श्रीधर्मान् भगवद्धर्मान् समासव्यासयो गतः मोक्षांश्च सहोपायान् यथा मुने ज्ञानाख्यान इतिहासेषु वर्णयामास तत्त्ववेत् धर्मं प्रवददस्तस्य सकालप्रत्युपस्थितः यो योगिनिश्चन्तमृत्यो वाञ्छितस्तुत्तरायणः तपोपसंहृत्य गिरः सकर्णै श्रीर्विमुक्तसङ्गं मन आधिपूरुषे कृष्णे लसर्पितपटे चतुर्भुजेन् तुष्टावजन्यं विसृजन् श्री भीष्म उवाच मतिरुपगल्पिता वितृष्णा भगवतीं सात्वत भुङ्गवे विभूम्नीं स्वसुखमुपगते क्वचित्पिहर्तं प्रकृतिमुपेयुषि यद्भवप्रवाहः त्रिभुवनगमनं तमालवर्णं रविकरगौरवराम्भरं दधाने बभुः अलकुलां वृधाननाब्जं विजयसखेरतिरस्तु मेन वध्या युधितुरगरजो विधूम्रविष्वक्कषलुलिता श्रमवार्यलङ्कृतास्ये मम निशितशरैर्विभिद्यमानत्वसे विलसत्कवचेस्तु भतीसि किवचोनिसंयमध्ये निजपरयोर्भयोरथं निवेश्य स्थितवती परसैनिकायोः अक्ष्णाहृतवती पार्थसखेरतिर्म व्यवहितपृदनामुखं निरीक्ष्य स्वजनवतात् विमुखस्य दोषबुद्ध्या कुमतिं महरतात्मविद्ययाय शरणरते परमस्य तस्य मे स्तु स्वनिगममपहाय मत्प्रतिज्ञामृतम् अधिकर्तुम् अवप्लुतो रतस्तः धृतरचरणोऽभ्ययाश्च गुर्हरिवहन्तुमिवं गदोत्तरीयः सितविसिखतो विसीर्णदंश क्षतझ परिप्लुत आततायिनो मे प्रसभम् अभिससारमध्वधार्तं स भवतो भगवान् गतिर्मुकुन्दः विजयरथकुटुम्ब आत्ततोत्रे धृतहयर्स्मिनि तश्रिये क्षणीये भगवति रतिरस्तु मे मुमूर्षोर्यमिकनिरीक्षहता प्रणयनिरीक्षणकल्पितोरुमानाः कृतमनुहृतवत्य उन्मदान्ताक् प्रकृतिमगन् किल सतसि युतिष्ठराजसूय एष अर्हणमुपवेत ईक्षणीयो मम दृशिकोशर एष आविरात्मा तमिममहमजं शरीरभाजां कृतिहृति प्रदिदृशमिव नैकधार्गमेकं समधिकतोऽस्मि विधूतभेतमोह सूतौ उवाच कृष्ण एवं भगवति मनोभाग्दृष्टे वृद्धिभिः आत्मन्यात्मानमावेश्य सोऽन्तः श्वासमुपरमत् सम्बध्यमानम् आज्ञाय भीष्मं ब्रह्मणि निष्कळे सर्वे बभूवुस्ते तोष्णीं व्यासीं सीवधिनात्यये तत्र द्वन्द्वुभयो नेतोर्देवमानववादिताः स संशुशाधवो राज्ञां काद्भेतो पुष्पवृष्ट्ययः तस्य तुष्टुबुर्मुनयो हृष्टा कृष्णम् अपि हे ततस्ते कृष्णकृतया स्वाश्रमान् ततो युधिष्ठिरो गत्वा सह कृष्णो पितरं शान्त्वयामासन्तारीं च पित्रा चानुमतो राजा वासुदेवानुमोदितः चकारराज्यं धर्मेण पितृपैतामहं विभुः इति श्रीमद्भागवते महापुराणे प्रथमस्तन्ते दुष्ट्रराज्यप्रलम्भो नाम नवमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहाराज के जये